श्रीहर नम अत चतुर्थ्याय सूत उवाच मय्या सकेरिति वचस्तत्त्वनिश्चयमात्मनः उभधार्यमतिं कृष्णे औत्तरे यः सतिं व्यधात् आत्मज्ञायासुधाघारपसुद्रविणबन्धुषो राज्येशा विकले नित्यं विरूटां ममतां पप्रश्य शेममेवार्तं यन्मां पृच्छत सत्तमाः कृष्णानुभावश्रवणे श्रद्धाणे महामना संस्थां विज्ञायसन्न्यस्य कर्मत्रैवर्गिकं च यद् वासुदेवे भगवती आत्मभावं दृढं राजो राजोवाच समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तमो तमोविशीर्यते मह्यं हरे कथयतः कथां भूय एव विवित्सामि भगवानात्मभायया यते धं सृजते विश्वं दुर्विभाव्यं अधीश्वरैः यथा गोबायति विभोर्यथा संयच्छते पुनः यां यां शक्तिमुपाश्रित्य पुरुषस्ति परः पुमान् आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च नूनं भगवतो ब्रह्मन् हरे अद्भुतकर्मणः दुर्विभाव्यमिवा भाति कविभिश्चाभिचेष्टितं यथा विपर्ति भूरिस्तवेगकुर्वन् कर्माणि जन्मभिः विचिकित्सितमेतन्मे भ्रवीतु भगवान् यथा शाब्दे ब्रह्मकणि निष्णाथ परस्मिंश्च भवान् खलु उवाच इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः ऋषिकेश अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे श्रीसुक उवाच नम परस्मे पुषा भूयसे सुद्भवस्थन निधली गृहीशक्तिदयाय दवाय अर्त्मने भूयो नमस्तौ रुज्जिनेश्चिते सता असम्भवाय किल सत्त्वमूर्तये पुंसां पुनः परमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदासुषे नमो नमस्ते स्ववृषभाय सात्वता विदूरकाष्ठाय मुहुक्कुयोगिनां निरस्तसांव्याति सयेन राधसा स्वधामनि ब्रह्मणीरं स्यते नमः यत्कीर्तनं यत् स्मरणं यदीक्षणं यद्वन्दनं यश्रवणं यदर्हणं लोकस्य सद्यो बिदुनोति कल्मषं तस्मै सुभद्रस्रवसे नमो नमः विचक्षणायच्छरणोपसाधनात् सङ्कं युतस्योभयधोऽन्तरात्मनः वितन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रवसे नमो नमः तपस्विनो धानपराय मनस्विनो मन्त्रवितः क्षेमं न विन्दन्ति विनाय दर्पणं नमो नमः किरातकोणान्ध्रपुलिन्धपुल्कसा आभीरगङ्गा यवनाः कसातयः येन् ये च पापा यदुपाश्रयाश्रयाः शुद्ध्यन्ति तस्मै प्रभविष्णवे नमः स एष आत्मात्मवतामधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः गतव्यलीकैरजसङ्कराधिभिर्वितर्क्य लिङ्गो भगवान् प्रसीदतां श्रियः पतिर्यज्ञपतिः प्रजापतिर्दियां पतिर्लोकपतिर्धरा पतिः पदेर्गतिश्च अन्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः यदङ्ग्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मनः वदन्ति चैतत्कवयो यदारुचं समे मुगुन्तो भगवान् प्रसीदता प्रचोदिता येन पुरा सरस्वतीं वितन्वता जस्य सतीं स्मृतिं हृदि स्वलक्षणाप्रादुरभूत् किलास्यतः समेऋषीणां वृषभ प्रसीदतां भूतैर्मर्य इमा पुरो विभुर् निर्मायसे ते यदमुषु पूरुषः भुङ्क्ते भगवान् वचांसि मे नमस्तस्मै भगवते वासुदेवाय वेधसे पपुर्ज्ञानमयं सौम्यायन्मुखाम्भुरु सवं यते देवात्मभूरा जन्नारदाय बिवृचते वेदगर्भोऽभ्यधात् साक्षात् यदाकहरिरात्मनः इति श्रीमद्भागवते महापुराणे विधीयस्कन्ते चतुर्थोऽध्यायः सर्वत्र गोपिका जीवनस्मण गोविंद गोविंद सद्गुमाज की जय